लाभकुण्ठनवतीं तेजोमयीं नैष्ठिकीं स्निपाङ्गविलोकिनीं भगवतीं मन्धस्मितश्रीमुखीं वात्सल्यामृतवर्षिणीं सुमधुरं सङ्कीर्तनालापीं श्यामाङ्कीं मधुसिक्तसूक्तिम् अमृतानन्दा श्वर्ये नमः ॐ गणानाम् त्वा गणपतिकम् ॐ श्री महागणपतये नमः प्रणो देवी सरस्वती वाजेभिर्वाचिनी वीक् namashivaya hari can i suggest one thing that every week you pick one person to chant uh, with you the ones we have done so that the pace is a little slower and uh, everybody gets a chance also that way okay so who wants to chant with me today I can. Okay. <laughs> is that Gayatri or? Yes. Okay. So where okay. have we started? So, so let us start when you are ready, you just the, you know, I'll say one, two, three, then we just start with OM ATHAD MANAM SHIVAT MANAM. After the first paragraph, then let's see whether the speed is okay or not. Then if it's okay, then we can go ahead. Okay. Okay. okay. Then maybe you can also start by yourself. Okay. So when okay. you you are Are ready, let me know. Are you okay? Yeah. Yes. Okay. Yes. रेडि लेट् मी नोके ओके वन् टु त्रि ओम् अथात्मानं शुद्धस्फटिकसङ्काशं नेत्रं पञ्चपुत्रकं गङ्गाधरं Bhushitam Shri. Shri. Shri. नीलगीपम् शाङ्काङ्कम् यज्ञोपवीतिनम् व्याचर्मुत्तरीयम्पयप्रथम् कमण्डलवक्षसूत्राणाम् धारिणम्नम् ज्वलन् स्वम् पिङ्गल शिखामुद्योदधारिणम् विषस्कन्धसमारूढम् पुमादेहार्थधारिणम् अमृतेनामृतम् शान्तम् दिव्यभोगसमन्वितम् दिग्देवतासमायूतम् परासुरनमस्कृतम् नित्यम् च शाश्वतम् शुद्धम् ध्रुवमक्षरमव्ययम् सर्वं ओके फोर् यु लि बिक्स्ट् ओके सो डूर् सेल् बिका इस् रेटेशन् रैट् सो प्रजनने ब्रह्मा तिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाहोरिन्द्रस्तिष्ठतु जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्ति वक्त्रे सरस्वती नयनयोश्चन्द्रादित्यौ तिष्ठेतां शरणयोरश्विनौ तिष्ठेतां ललाटे रुद्रा तिष्ठन्तु मूर्ध्न्यादित्या स्थिष्टन्तु शिरसि महादेवस्तिष्ठतु शिखायाम् वामदेवस्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतः शूली तिष्ठतु पार्श्व्योः शिवाशङ्करौ तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो भैः सर्वतोऽपि निर्ज्वालामालापरिवृतस्तिष्ठतु सर्वेष्वङ्गेषु सर्वा देवता यथा स्थानं तिष्ठन्तु मां रक्षन्तु सर्वान् महाजनान् रक्षन्तु वाचि श्रितः वा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि युर्मे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि सूर्यो मे चक्षुषी श्रितः चक्षुहृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि चन्द्रमा मे मनसि मनो मनोहृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि दिशो श्रोत्रे श्रिताः श्रोतृगुम् हृदये हृदयं अमृतं ब्रह्मणि आपो मे श्रिताः रेतो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पृथिवी शरीरे श्रिता शरीरगुं हृदयं मयि अहमृते अमृतं ब्रह्मणि ओषधि वनस्पतयो मे लोमसुश्रिताः लोमानि हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि इन्द्रो मे बले श्रितः बलगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध् श्रितः मूर्धा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ईशानो मे मन्यु श्रितः हृदयं मयि अहमृते अमृतं ब्रह्मणि आत्मात्मनि श्रितः आत्मा हृदये हृदयं मयि अहम् अमृते अमृतं ब्रह्मणि पुनर् आत्मा पुनरायुरागात् पुनः प्राणरापूतमागात् वैश्वानरो रश्मिर्वावृथानः अन्तस्तिष्ठत्वमृतस्य गोपाः Uh, can we repeat after you yeah sure okay. or we can have gayatri uh, do it once and then see how that goes because then it gives practice for her too right do you want to try that gayatri next one too okay as sri rudra adhyay prashna mahamantra sya aghora rishihi anustup chhanda सङ्कर्ष्णमूर्तिस्वरूपो यौ सा वादित्यः परमपुरुषस्ये शरुद्रा देवता रुद्रो देवता, देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदा शिवप्रसादसिद्ध्यर्थे जपे विनियोगः ओम् अग्निहोत्रात्मने अङ्गुष्ठाभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मास्यात्मने मध्यमाभा मध्यमाभ्याम् नमः निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः सर्वकृत्वात्मने करतलकरपृष्ठाभ्याम् नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायैवषट् निरूढपशुबन्धात्मने कवचाय अहम् ज्योतिष्टोमात्मने नेत्रयाय वौषट् सर्वक्रत्वात्मने अस्त्राय भूर्भुवस्वरोमिति दिग्बन्धः the thing is you are very comfortable with this thing so I think uh, if you go a little slower I think everybody will can be able to catch up I think uh, for you this is extremely easy so because I think you just read it a few times and then it's uh, uh, coming pretty fast so um, mm -hmm. I would say uh, for other people I think they might find some of this very difficult so uh, go a little bit slower so other people can catch up there's nothing yeah. wrong with what you're doing except that I think that uh, maybe uh, because you have a group There might be some people who will uh, coast a little slower because they, are, uh, they might find it difficult to uh, say okay. the words. Okay. Okay, so can you do the next one too? Yanam, Apatala Navasthala. Okay. Apatala Navasthalaanta bhuvana brahmanda mavispurata Jyothespaatika lingamaulyasatpurneindu vantamrutaihe अस्तोकाप्लुतमेकमीशमनीशमृद्रानुवाकाञ्जपन् ध्याये दीप्सितसिद्धये ध्रुवपदम् विप्रोभिषिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेहाभसित हिमरुचा भासमानाभुजङ्गैः कण्ठे कालाः कपदाकलितशिकलाश्चण्डकोदण्डहस्ताः प्रयक्षा रुद्राक्षमालः प्रकटितविभवाः शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रूक्त प्रकटितविभवायच्छन्तु i can uh, try the first part uh, sure. i don't i'm not very sure about the dhyanashlokam yet okay which one do you want to try uh i i can try up to the in you know, up to the dhyanashlokam okay right go ahead Is is is it it okay okay. Okay. if I start start from the the beginning beginning, or is it going to to take a long time? time. No, just... no, no let's, let's do one more time. When I start the beginning, it's okay. That's why you are here, right? right? Okay. Uh, everybody feel comfortable, it's not, uh, there is no hurry to finish this thing, right? so... okay. Om ओम् अतात्मानं Sri श्रीरुद्धरूपं ध्यायेत् शुद्ध स्फटिक Sankasham त्रिनेत्रं Panchavaktrakam गङ्गाधरम् दशभुजं, सर्वाभरणभूषितम् नीलग्रीवम् शशाङ्काङ्कम् नागयज्ञोपवीतिनम् व्याघ्रचर्मोत्तरीयम् च वरेण्यमभयप्रदम् कमण्डलवक्षसूत्राणाम् धारिणम् शूलपाणिनम् ज्वलन्तम् पिङ्गलजटा शिखामुद्योतधारिणम् वृषस्कन्दसमारूढम् उमादेहार्तधारिणम् अमृतेनाप्लुतम् शान्तम् दिव्यभोगसमन्दितम् दिग्धेवतासमायुक्तम् सुरासुरनमस्कृतम् नित्यम् च शाश्वतम् शुद्धम् ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानम् रुद्रम् वै विश्वरूपिणम् एवम् ध्यात्वा द्भिजः सम्यक् ततो यजनमारभेत् प्रजनने ब्रह्मा तिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु ह्वोर् इन्द्रस्तिष्ठतु जठरेग्निस् अग्निस्जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयोश्चन्द्रादित्यौ तिष्ठेताम् कर्णयोर् ललाटे रुद्रस् रुद्रास्तिष्ठन्तु ललाटे रुद्रास्तिष्ठन्तु मूर्त्यास्तिष्ठन्तु शिरसि महादेवास्तिष्ठतु शिखायां शिखायां वामदेवस्तिष्ठतु पृष्टे पिनाकी तिष्ठतु पुरतः शूली तिष्ठतु पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् सर्वतो वायुस्तिष्ठतु ततो अग्निर्ज्वालाः सर्वतो अग्निर्ज्वालामाला परिभृतस्तिष्ठतु सर्वेषु अङ्गेषु सर्वा देवता यथा स्थानं तिष्ठन्तु मां रक्षन्तु सर्वां महाजनां रक्षन्तु सर्वान् महाजनाम् सर्वेषु अङ्गेषु सर्वाः देवताः यथा स्थानं तिष्ठन्तु इस् द प्रोस् फार् Okay. Okay. In, in poetry or you you You You just the sandhi and you put it together. You say, you don't say, Sarveshu Angeshu. don't इन् पोयट्रि और् श्लोकाम् सन्धि यु पुर् सर्वेषु अङ्गेषु सर्वेषु अङ्गेषु सो देट् ओन्ल थिङ्ग् दै नोटिस् बट् अदर् वैस् इस् गुड् इत् इस् अस्ट् अस् दु आर् जस्ट् रैटिङ्ग् सम्थिङ्ग् इ सर्वेषु अङ्गेषु सर्वाः देवताः यथास्थानं तिष्ठन्तु बट् इन् दिस् केस् इस् श्लोकाम् सर्वेष्वङ्केषु सर्वा देवता यथा स्थानं तिष्ठन्तुे वाचि श्रुतः वाग् हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि वायुर्मे प्राणे श्रुतः णो हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि सूर्यो मे चक्षुषिश्रुतः चक्षुर्हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रु श्रुतः मनोहृदये हृदयं मयि अहममृते ए अमृतम् ब्रह्मणि द्विशो मे श्रोत्रे द्विशो मे श्रोत्रे श्रुताः श्रोत्रे हे श्रुताः श्रोत्रग्रं हृदये हृदयं मयि अहमृते ए अमृतम् ब्रह्मणि आपो मे रेतसि श्रुताः रेतो हृदये हृदयं मयि अहमृते ए अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रुता शरीरगम् हृदये हृदयं मयि अहमृते ए अमृतम् ब्रह्मणि ओषधि वनस्पतयो मे लोमानि हृदये हृदयं मयि अहममृते ए अमृतम् ब्रह्मणि इन्द्रो मे बले हे श्रुताः इन्द्रो मे बले हे श्रुतः बलगुं हृदये हृदयं मयि अहममृते ए अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रुतः मु मो, मूर्ध्यादये हृदयं मयि अहममृते ए अमृतम् ब्रह्मणि ईशानो मे ईशानो मे मन्यो श्रुतः मन्युर्हृदये हृदयं मयि अहममृते ए अमृतम् ब्रह्मणि आत्मा आत्मात्मनि श्रुता आत्माम् आत्मात्मात्मनि श्रुतः आत्मा आत्मनि श्रुतः आत्मा हृदये हृदयं मयि अहमृते ए अमृतम् ब्रह्मणि यूरागात् पुनः पुनः प्राणपुनराकूतमागात् वैश्वानरो रश्मिभिर्वा वृधानः गोपाः अस्य श्रीरुद्राध्याय प्रश्नमहामन्त्रस्य अघोरऋषिः अनुष्टुप्तिस्वरूपो यो स्वरूपो यो योऽसावादित्यः यो परमपुरुष स एष देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति <coughs> कीलकम् श्रीसाम्ब सदा शिवप्रसादसिद्ध्यर्थे जपे म् अग्निहोत्रात्मने अङ्गुष्टाभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मास्यात्मने मध्यमाभ्याम् नमः निरूढपशुभन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः सर्वक्रत्वात्मने करतलकरपृष्टाभ्याम् नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिकायै वषट् निरूढपशुभन्धात्मने कवचाय हुं ज्योतिष्टोमात्मने नेत्रयाय वौषट् स्वात्मने स्वात्मने अस्त्राय फट् दिग्भन्धः अस्त्राय फट् ओके इट्स् नौण्ड् ओके बिकोस् नीक् फातिमा और् फोर् अवर् लैक् इन् संस्कृतं इस्त्राय फट् फट् भूर्भुवस्वरोमिति दिगभन्दः ओके गुड आई एम नॉट वेरी श्योर अबाउट द ध्यानम पार्ट ट्राई इट वन्स डे इट डजंट मैटर ओके यू कैन मेक मिस्टेक्स ओके एटलीस्ट यू विल हैव अ चांस टू से इट सो राइट यू गिव मोर आई कैन से इट इफ यू वांट बट आई गेस यू शुड ट्राई इट ऑन योर ओन ओके आपाताल नभ नभस्तलांत आपा नभस्तलांत भुवन आपातालस्थलान्तभुवनब्रह्माण्डमाविस्फुरत् ज्योतिस् ज्योतिस्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः अष्टोकाप्लुतमेकमीशमनिशम् रुद्रानुवाकाञ्जपन् ध्याये दीप्सितसिद्धये ध्रुवपदम् विप्रो विप्रोषिञ्चे देहा ब्रह्माण्ड बासमाना भुजङ्गैः कण्ठे का कण्ठे कण्ठे काल, काला कपर्दः Kantey kala kaparda kalit. There is no sound. Kapardhā kalit. Kaparda kalit. Kaparda kalit. Kantey kala kaparda. Kante kaparda kalit. Kaparda kalit. No, no, no. Kaparda kalit. Kaparda. Kalit. Ah, kalit. Kabaida kalit. Kaparda kalit. Okay. Kaparda kalit. Okay. कण्ठे काला कपर्दाकलितशिकलाण्डकोदण्डहस्ता त्र्यक्षा रुद्राक्षमाला प्रकटितविभवा मूर्तिभेदाः रुद्रा श्रीरुद्रसूक्तप्रकटित प्रकटितविभवा नप्रयच्छन्तुसौख्यं नप्रयच्छन्तुसौख्यं दिस इज ना बिसर्ग आ देन ने पकार कम्स राइट बिकम्स ए एफ साउंड नप्रयच्छन्तुसौख्यं नप्रयच्छन्तुसौख्यं करेक्ट या सो यू आर आल्सो ओके विद दिस सो okay i keep practicing yeah yeah no good so this is very good so uh, i don't have any complaints whatsoever okay. so thank you anybody wants to try i want to do the dhyanam hari okay do the dhyanam okay. now practice that okay apatalanabastalanta bhuvana brahmanda ma vispurat jyotis लिङ्गमौलिङ्ग्योतिस्पाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः oh, अस्तोकाप्लुत ओके okay. अस्तोकाप्लुतमेकमीशमनिशम् रुद्रानुवाङ्काञ्जपन् ध्याये दीप्सितसिद्धये ध्रुवपदम् विप्रोभिषिन् विप्रोभिषिञ्चेच्छिवम् ब्रह्माण्ड व्याप्तदेहा व्या, ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे काला कपर्दा कलितशिकलाश्चण्ड कोदण्डहस्ताः त्र्यक्षा रुद्राक्षमाला प्रकटितविभवा शाम्भवा मूर्तिभेदाः श्रीरुद्रूक्तन्तु रुद्राक्षमाला प्रकटितविभवा इ But in, front okay. a kakara, it comes, it in front of a kakara, becomes sound, okay? Okay, ककार इम् कालाः कपर्दा कोदण्डहस्ताः it प्रकटितविभवाः शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्त प्रकटितविभवा नः प्रयच्छन्तु सौख्यम् बिफोर् दकार इन् sound. ओके लक्ष्मी डु द कण्ठे द लास्ट् त्री लैन् कण्ठे कालाः कपर्धा कपर्धाकलितशिकलाश्चण्ड कोदण्डहस्ताः त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवा च शाम्भवा मूर्तिभेधाः रुद्राः श्रीरुद्रसूक्त प्रकटितविभवा नः प्रयच्छन्तु सौख्यम् isn't be dials want to try okay then let's uh, learn the next part then okay this is what we the, the, uh, uh, sloka was chanted at the beginning as well so but it hey ganga wanted you to uh, say and uh, us repeat right no you are doing very well everybody is that well. ganga wanted it right oh ill let's okay i will uh, i've been listening to all of you so i think i'm okay ma thank you <coughs> she was doing well last time she was uh, doing this so i mean if uh, next time when she is better she can chant and then we can go through that so maybe next class she will do so we can look at that sir okay ganga sure sure yeah okay. So So this will do the the uh, Dhyana Sloka, which is is said at the beginning, same thing is here, okay? So I'll say say it once, you'd say it twice. OM -am OM TWA TWA ओ गणा OM हवामहे ॐ गणानां गणपतिगुं हवामहे ्रह्मणां ब्रह्मणस्पत आनशृण्वन् नूदिभिः सीदसादनम् आनः शृण्वन्नुतिभि सीदसादनम् आनः शृण्वनुतिभि सीदसादनम् ऊदिभिः ओके आनः शृण्वन् नूदिभिः सीदसाधनम् आनः शृण्वन्नुतिभि है आनशृण्विसाधनं डबल् सकार ऊदिव शृण्विस्सीदिस् सीद रैट् ओके शृण्वन् शृण्वीदीद साधनं आन शृण्विस्सीदनं आन शृण्विस्सीद साधनं भिस्सिदनम् दिड् सकार आन शृण्विस्सीद साधनं आन ल् दिस् इ pero okay we can chant together okay let's chant the whole thing together because we also said this in the beginning so let's try it once together okay 1 2 3 om gan gan ganpati goha mahai kavim kaviram namo namastam ishtaraacham brahmanam brahman sampaanhasrunvanoodin siddha sadanam maha ganapataye namaha is okay yes okay let's do the shanti pada and it goes slow because this also comes in the Uh, Chamagam also. So this we we'll do uh, very slowly and then uh, uh, because uh, lot of the words चमकम् आल्सो सो दिस् विल् डु वेरि स्लोलन् बका वर्ड्स्ेव् टु ब्रेक् डिपेण्डिङ्ग् आन् वेरैटीस् ओके सो डोट् वरीट् इल् जस्ट् ऐ डु टु स्लोश्च प्रियं च मेनुकामश्चमे ुकामश्च प्रियं च मेश्च मेश्च मे सौमनसश्च भद्रं च मे श्रेयश्च मे श्रेयश्च मे श्रेयश्च मे वस्य मेश्च मे वस्यश्च मे यशश्च मे यशश्च द्रविणं च मे द्रविणं च मेता च मे यन्ता च मेता च मेता च मे धर्ता च मे धर्ता च मे क्षेमश्च मे क्षेमश्च मे क्षेमश्च मे धृतिश्च मे धृतिश्च मे धृतिश्च मे विश्वं च मे विश्वं च मे महश्च मे महश्च मे महश्च मे संविच्छ मे संविच्छ मे संविच्छ मे ज्ञात्रं च मे ज्ञात्रं च मे ज्ञात्रं च मे मे प्रसूश्च मेरं च मेरं च मे सीरं च मे लयश्च मरुतं लयश्च मरुतं लयश्च मरुतं च अमृतं च मे अमृतं च मे अयक्ष्वं च मे अयक्षं च मे अयक्ष्मं च मे अयक्ष्मं च मे अनामयश्च मे अनामयश्च मे अनामयश्च मे अनामयच्छ मे जीवातुश्च मे युत्वं च मे दीर्घायुत्वं च मे दीर्घायुत्वं च मे अनमित्रं च मे अनमित्रं च मे अनमित्रं च मे यनञ्चमे शयनंचमे सुचमे सुदिनञ्चमे So, uh, we'll get comfortable with the words first, then we can put it together in the right tune, okay? So, uh, now it just, uh, sometimes the uh, high and low might not exactly match because we are turned, whenever we stop, the voice automatically will come down more or less. So, let's do this one more time, okay? Shanchame, mayaschame Shanchame, mayaschame Shanchame, mayaschame द्रं च मे श्रेहश्च मे च मे धर्ता च मे यन्ताचमे धर्ताचमे यन्ताचमे धर्ताचमे क्षेमश्चमे धृतिश्चमे क्षेमश्चमे धृतिश्चमे क्षेमश्चमे धृतिश्चमे विश्वञ्चमे महश्चमे विश्वञ्चमे महश्चमे विश्वञ्चमे महश्चमे संविच्छच्छमे संविच्छमे ज्ञात्रञ्चमे Samvitchhame Jyātram Chame Sushchame Prasushchame Sushchame Prasushchame Sushchame Prasushchame Sīran Chame Sīran Chame Sīran Chame La echtamar standby La echtamarubacheram Chame Et लड़ान्च्यम्येट्समन्च्यम्येट्समन्च्यम् ayamurð Thanq Doof ayamurð Thanq Doof Angur ten ayamuryt thanq Doof um amur problem am or jun dad am wat am Amr the me. The, the me has to be अमृतं च मे यक्ष्मे के सो विल् स्लैट् अकारो अमृतञ्चमे <laughs> amrutam chame yakshnam chame amrutam chame yakshnam amrutam chame yakshnam chame amrutam chame yakshnam chame because that i is very very uh, slightly pronounced it's the i is there but it's probably uh, not a ah by itself but it's just like very very contends ah. okay that's all अमृतं च मेक्ष् अमृतं च मे अमृतं च मेक्ट् अमृतं च मे यक्ष्मञ्च मे अनामयच्छ अनामयच्छ मे अनामयच्छ मे मे शयनं च मे सुगनं च मे शयनं च मे सुगनं च मे शयनं च मे सुगं च मे शयनं च मे सुगं च मे शयनं च मे सूषाचमे सुदिनं च मे सूषाचमे सुदिनं च मे सूषाचमे सुदिनं च मे so this is a little difficult so we'll have to keep practicing it a number of times because we just have spitting it up but manshi uh, let get the words we can get the right up intonations okay okay does anybody want to stay and uh, practice uh, rudra if we have learned before we can just try through the first anuvaga till ato e ishudhis tvaraya asman nidhehitam till that yes uh one question on this that some vichcha or its with uh some vichchcha or some vichcha samvichcha me oh, samvichchame samvichchame oh, samvichchame jnatranchame samvichchame jnatranchame samvichchame jnatranchame correct samvit chame okay so samvit chame okay so let's say the rudra prashna if we have it uh, look at it otherwise in uh, fact to um, chant with us i sent the recording right that, that is our uh, reference that is goes very slow and we will only go at that uh, speed okay so so will i'll mute can you go very slowly this time okay If anybody want to chant with uh, me, you are more than welcome. But if you don't want to, that's okay. We will try it. Oh, at least one first Anubhaka we will try. Because we have to get ready for Chivaratri. Okay? I hope uh, all of you can listen to the other recording I sent, which is our uh, reference for chanting, and we will uh, follow exactly that. It's extremely uh, very nice space and very well done. Okay. One, two, three. ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यप उतोत इषपे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इषुः शिवतमाशिवम् बभूव ते धनुः शिवा शरव्यायातवत या नो रुद्रमृडय या ते रुद्रशिपातनूरघोरापापकाशिनी तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीः यामेषुम् गिरिशन्त हस्ते बिभर्ष्यस्थवे शिवाम् गिरित्रताम् कुरु माहि गुंसीः पुरुषम् जघत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथाह्ः सर्वमिज्जगदयक्ष्मगुंसुमना असत् अद्य वोचततिवक्ता प्रथमो दैव्यो अही गिश्च सर्वा आञ्जम्पयन् सर्वा आश्चयादु असौव्यस्ताम्रो अरुण उद बभ्रुः सुमङ्गलः ये चे मागुम् रुद्रा अभिधो दिक्षुश्रिधाः सहस्रशो वैशागुम् हेड इमहे असौव्यो वसर्पदिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः तैनम् विश्वा भूतानि सदृष्टो मृडयाथिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्योऽकरम् नमः प्रमुञ्जदन्वनस्त्वमुपयोरार्नियोज्याम् याश्च ते हस्त इषभः परादा भगवोऽवप अवतत्यदनुस्त्वगुंसहस्राक्षसधेषु धे निशीर््यशल्यानामुखा शिवो नः सुमना भव विज्यम् धनुः कबर्दिनो विशल्यो बाणवागुम् उद अनेषस्येषप आभुरस्य निशम् गतिः या हे दुर्मीढुष्टमहस्थे बभूव ते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानातताय दृष्णवे उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते दन्वनो हेदिरस्मान्वृणक्तु विश्वतः अथोय इषु दिस्तवारे अस्मन्निधेहितम् this is the toughest paragraph okay after this thing it, everything else is shorter and much more easier because most of them will become namaha namaha namaha okay so the first don't get discouraged by the first paragraph i suggest you uh, listen to the the our reference recording a few times and then then you can practice in the same speed and same intonation right okay? uh -huh. can you put the reference recording as a starred message so then we can go to it quickly oh how do i do that in the whatsapp uh, i think if you do a pull down that pull down menu if you say you can actually say starred message okay i put the uh, the link of uh, this call into the starred message like that okay let me see if i can that way you know people don't have to go search in the messages for that okay let me check that i'm i'm trying to see the message okay sir show you how to do it later okay so then uh, maybe let's stop here and then we'll probably chant at uh, the next paragraph uh, next two paragraphs next week from rudram and uh, I'm, assume, I'm assuming that uh, is very uh, never you are meeting face to face we can chant some of the other ones ओके लेट् लोकाः समस्ताः क्वश्चिन् बिफोर् वि कन्क्लूड् ओम् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु कश्चित् दुःखभाग् भवेत् ओम लोकाः समस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु ओम शान् शान् शान्ति शान्तिः ओम श्री गुरुभ्यो नमः चरै ओम